श्री श्रीगुरुभ्यो नमः हरिः ॐ सहना भवतु सहनो भुनक्तु सहवीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहि ॐ शान्ते शान्तिः शान्तिः हरिः ॐ ल्वापरान्ते नारदो ब्रह्माणं जगां कथं भगवन्गां पर्यटन् कलिं सन्तरेयमिति सहोवाच ब्रह्मा साधुपृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तत्तृणु कलिसंसारं तरिष्यसि भगवद् आदपुरुषस्य नारायणस्य नामोच्चारणमात्रेण निर्निर्धूतं कलिर्भवति नारद पुनः प्रपक्षतन्नां किमिति सहोवाच हरण्यगर्भः हरे राम हरे राम राम राम, राम हरे हरे हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे इति षोडशकं नाम्नां कलिकल्मषनाशनं नातपरतरोपाय सर्वभेदेषु दृश्यते इति षोडशं कलस्य जीवस्याभरणविनाशनं ततः प्रकाशते परब्रह्म मेघापाये रवि रश्मिमण्डलीवेति पुनर्नारदः प्रपक्ष भगवन्कोश्य विदिरिति तम्भोवाच नास्य विदिरिति सर्वदा सुचिरसुचिर्वा पठन्द्रं ब्राह्मण सलोकतां समीपतां सरूपतां सायुज्यतावेति यदा आस्य षोडशीकस्य सार्धत्रिकोटिर्जपति तदा ब्रह्महत्यां तरति तरति वीरहत्यां स्वर्णस्तेजात् पूतो भवति पितृदेवमनुष्याणाम् अपकारात् पूतो भवति सर्वधर्मपरित्यागान् पात्यश्चद्य शुचिता मा आप्नुयात् सद्योमुच्यते सद्योमुच्यते इत्युपनिषत् ॐ सहनावतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहैः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीरामकृष्णार्पणमस्तु <laughs>